श्रीमद्भागवत् महापुराणं दशंस्कन्ध अथैकाशीतितमोऽध्यायः सुदामाजीको ऐश्वर्यकी प्राप्ति शेषोकुवाच स इत्थं द्विजमुख्येन सहस कथयन् हरिः सर्वभूतमनोभिज्ञ स्मयमान उवाच तम् ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रेम्णानिरीक्षणेनैव प्रेक्षन् खलु सतां गतिः श्रीभगवानुवाच किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् अन्वप्योपासितं भक्तये प्रेम्णा भूर्येव मे भवेत् भूर्यप्यभक्तोपहितं न मे तोषाय कृष्णकल्पते पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्तिपहितं न स्नामि प्रयतात्मनः इत्युक्तोऽपि द्विजस्तस्मै वेणीतः पतेषियः पृथुकं प्रसितं राजन्न प्रायच्छन्दवाङ्मुख सर्वभूतात्मदिक्साक्षात् तस्यागमनकारणं विज्ञाया चिन्तयन्नायं श्रीकामो मा भजत्पुराम् पत्न्या पतिव्रतायास्तु सखा प्राप्तो प्राप्तो मामस्य दास्यामि सम्पदो मर्त्य दुर्लभा इत्थं विचन्तवसनाचिरबद्धाद्विजन्मनः स्वयं जहार किमिदम् इति पृथुतण्डुलान् नन्वे तदुपनीतं वे परं प्रीणनं सखे तर्पयन्त्यङ्ग मां विश्वम् एते पृथुगुतण्डुलाः इति मृष्टिं सखि जग्ध्वां द्वितीयां जग्धुमादरे तावस्थिर्य गृहे हस्तं तत्परा परमेशिनः एतावतालं विश्वात्मन् सर्वसम्पसपिन् समिद्धये अस्मिन् लोके स्वामस्मिन् पुंसत्वम् ोषकारणम् ब्राह्मणस्तां तु रजनीमुषित्वा चित् मन्दिरे भुक्त्वा पित्वा सुखं वेने आत्मानं स्वर्गतं यथा स्वभूते विश्वभावेन स सुखेनाभिवन्दितः जगाम स्वालयं तातपथ्यनुव्रज नन्दितः स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम् स्वगृहान् वीडितो गच्छन् महद्दर्शननिवृत्तः अहो ब्रह्मण्यदेवस्य दृष्ट्वा ब्रह्मण्यताय मया यद्दरिद्रतमो लक्ष्मीम् आश्लिष्टो विभ्रतोरसि क्वाहं दरिद्र पापीयान् क्व कृष्णश्रीनिकेतनः ब्रह्मबन्धोरिति स्माहं बाहुभ्यां परिरम्भितः वासितप्रियाजुष्टे पर्यङ्के भ्रातरो शांतो महिष्याविजितशान्तो वालव्यजनहस्तया शुश्रूषया परमया पादसंवाहनादिभिः पूजितो देवदेवेन विप्रदेवेन देववत स्वर्गापवर्गयो पुंसां दशायां भुवि सर्वासामपि सिद्धीनां मूलं तज्जरणार्चनम् अधनोऽयं धनं प्राप्य माद्यन्नुच्चयन मां स्मरेत् यति कारुणिको नूनं धनं मे भूरि नाददात्